गणेशपुराणम् क्रीडाखण्डम् अध्यायम् 17 क उवाच आगतं राजशार्दोलम् पुनः पप्रसादरम् मेघगम्भीरया वाच सर्वज्ञोऽपि विनायकः त्वया किमुक्तं तत्राध तेन वा भाषितं नु किं नृप तत्सर्वं श्रुत्वा वक्ष्यामि मदिं नृप उवाच तस्मै ते कथितं वाक्यं मयापि प्रार्थितं बहु स उवाच मुनिकस्त्वं कोऽसावपि विनायकः उपास्यरूपं बिभ्रूया तदा यास्ये तमीक्षितुं एवं निराकृतस्तेन मार्गचिन्तापरं समां प्रशयामास स्वगृहं दत्त्वा मूर्ध्निकरं मम निमीलितदृशं चक्रे क्षणादुन्मील्यलोचने तावद्दर्शपुरदस्थितं त्वां स्वगृहे सुर स्मृत्वाश्रमपदं तस्य हर्षश्चेतसि जायते अकसीदिति श्रुत्वैव वाक्यं तस्य विनायकः विनायक उवाच श्रान्दोऽसि नृपशार्दूल पुनर्गच्छतमाश्रमं गजाननेदि मन्नामश्रुत्वा यस्यत्यसौ मुनिः एवं वदति तस्मिंस्तु सर्वरूपे विनायके तावददर्शभ्रूचुण्डेरात्मानमाश्रमे स्थितं पुनर्दृष्ट्वा च नृपदिं हृदि तर्का नथाकरोत् किमर्थं पुनरा यादो राजा किं वा वदिष्यति तद ऊजे नमस्कृत्य राजा तं मुनिपुङ्गवम् आकार यदि विप्रस्वामी तव गजाननः नाममात्रे श्रुते तस्य जघर्ष च मुमोक्ष च रोमाञ्चितशरीरोसौ मुमो यदि पक्षौ भवेतां मे तदोड्डीय गदोभवम् इत्युत्कण्ठतया विप्रः प्रतस्ते भुभुजा सह चलिदे चलिते पृथ्वी कदाप्यचलिते मुनौ चचालसम्मुखी भूत्वा कम्बन्दी तमथा ब्रवीद रक्ष मुनिशार्दूल न भीर्मतो जाननं निजं नादं द्रष्टुं यामि त्वरान्विदः इत्युक्त्वा ताम् पुरो यादुं चलितोऽत्सौ द्विजोत्तमः दर्शयामासतां पुरीं दृष्ट्वा पुरीं नृपो हर्षा दुवाच मुनिपुङ्गवं त्वत्प्रसादादिवम् प्राप्तं पत्तनं वेगवत्तया तपतां जपतां दोर्ज्ञो महिमा भवतां मुने यत्युक्त्वा शीघ्रमनयत् स्वगृहं तं नृपोत्तमः उपवेश्य भृष्युण्डिं तम् आसने काञ्चनोत्तरे अपूजयन्महाभक्त्या पाद्यार्थं विष्टरादिभिः ऋषिरुवाच तताद नृपदेक्षक्षे तवद गजानन तं प्रदर्शय नोचे ताे निजाश्रम नृप उवाच क्रीड़े बाेन बाल, बाल मध्ये गजानन वीरो यथा धूलिलिप्तस्तथैवायं विराजदे ददर्शजमुनिस्तं तु शुण्ठादण्डविराजितं कोटिसूर्यप्रतिकाशं द्विभुजं द्विरदाननम् उवाचनृपदिं क्रोधात् कथमेनं नमाम्यहं धिक्तं महान्तं यो राजन राजन्नामदे सौलखीयसे तृणमतिकथं सिंहो गजगण्डविदारणः क उवाच श्रुतं तनमुनेर्वाक्यं तमुवाच तदोर्भकः कौतुकाविष्टचित्तो सौ विभुः विनायक उवाच कीदृत्ते भवेत् स्वामी भ्रूशुण्डे वदसाम्प्रदं मुनिरुवाज दिव्याम्बरो दशभुजो मुक्ता माला विभूषितः सिद्धिबुद्धियुधकर्णकुण्डलाभ्यां विराजितः शुण्डादण्डमुखो लम्बकर्णसिन्धुरमण्डितः अहि शोभिमहानाभिक्वणचरणनूपुरः महामुकुटसौभाढ्यो दशायुधलसत्करः जगदन्तो बालचन्द्रः क्षुद्रखण्डाविराजितः मयूरवाहनो देववृन्दवन्दितपादुकः कड उवाच यदि तद्वचनं श्रुत्वा पद्मासनगदत् स्वयं तादृग्रूपो सृष्टि सृष्टिरक्षापहारकृद भ्रूचुण्डितं निरीक्ष्यैव स्वयोपास्यं गजाननं। लुुंडूम प्रे सपत्ति परांग मुखः ननर्त परमांदो रोचिद शरीरवान्ह प्रपद्याध प्रणनाम यदा यूजयाम स विधिवुपचारृथक प्रधक।, प्रधक, प्रधक पूजे राजा महापुण्यं फलिदं पूर्वजन्मजं देवभक्तभवं सौख्यं दृष्टमद्यमयाद्भुतम् उभाभ्यां प्रणिपत्याधपुपूजय यथा विधिमहासनगदौ तौ दु परस्परमधो चदुः आलिङ्ग्य दशदोर्दण्डैः परमात्मा जहर्ष सगद्गदौ निरीक्ष्यै तौ साश्रु राजा तदोऽभूद गजानन उवाच तव निष्ठा मया ज्ञायि राज्ञा अध एष धृतो वेषो दश दोर्दण्डमण्डितः यथा यथा जनोऽन्योऽपि ध्यात्वा मुने तदा कं रूपाणि करोमि च ददामि च वाञ्छितं तस्य लोकस्य विश्वासेन भजत्यसौ दुष्टभारभयाक्रान्ताधरित्री सत्यलोकगा ब्रह्माणं शरणं यादातेनाकं प्रतिबोधितः आदित्याश्च वरेणाकं जादः कश्यपनन्तनः भुवो भारं करिष्यामि शक्रादींश्च निजे पदे स्थापयिष्यामि दैत्यानां नाशं कृत्वाप्यनेकथा तवोत्कटमनुष्ठानं दृष् ह मी दृश्यो भवम् देवान्तकम् सह भ्रात्रा हत्वा यामि निजम् पदम् ऋषिरुवाच दृष्ट्वा तवाङ्घ्रियुगलम् सर्वलोकसुखावहम् सर्वक्लेशहरम् देववन्द्यम् काङ्क्षितदम् प्रभो कृतकृत्यपवित्रश्च जादोकं तव दर्शनाद वरं मे देहि विश्वात्मन्तेन तृत्तो भवाम्यहं यदा यदा ध्यायामि रूपेणानेन विघ्नप तदा तदामे मे प्रत्यक्षो भवेधा करुणानिधे आशापूरक इत्येवं नाम देख्यादिमे गजानन उवाच यदा यदा वाञ्छसेत्त्वं तदा यास्यामि तेन्तिकं भक्तिभावादिदं नाम त्वयोक्तम् ख्यादिमेष्यति क उवाच एवंवरौ समाकर्ण्य प्रणनाम मुदा मुनिः प्रणते दुमुनौ तस्मिन् पुनः प्रोचे गजाननः निधायमस्तके हस्तं शनैस्तस्य द्विजस्य सह यद्यते वाञ्छितं ब्रह्मं तत्सर्वं सिद्धिमेष्यति अविस्मृतिश्च भविता मम नित्यं मुने तव क उवाच एवमुक्ता बालरूपश्चिक्रीडस विनायकः सोऽपि पद्मासनगदोध्यानमेवान्वपद्यदत् आश्चर्यं परमं चक्रुः सर्वलोकास्तदद्भुतं निरीक्ष्य बालरूपस्य चरितं परमात्मनः काशिराजोवद्धत्तत्र धन्योहं जगदीतले दर्शनं प्राप्तवानस्य अस्य ब्रह्मदीनां सुदुर्लभम् तं बालं करे धृत्वा निनायान्तर्गृहं मुदा भोजयामास स्वाध्वन्नं शाययामास पूर्ववद आज्ञां गृहीत्वा सुष्वापस्वयं पूर्ववन् मुने यदि श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सप्तदशोऽध्यायः ओम्